नमो देव महादेव्ये शिवाय महा सततं नमः नमा, नमा प्रकृत्यै भद्राय नियता यै चेन्दुरूपिण्यै सुखायै सततं नमः कल्याण्यै प्रणता विध्ये सिद्धे कुर्मो नमो य दुर्गपाराय साराय सर्वकारिण्ये ख्याते तथैव कृष्णाय धम्राय सततं नमः अतिसौम्यातिरौद्राय न तास्तस्यै या देवी सर्वभूते तु विष्णुमायेति शब्दता नमस्तस्यै नमस्तस्यै नमस्तस्यै या देवी सर्वभूतेषु बुद्धिरूपेण संस्थतां नमस्तस्य नमस्तस्ये नमस्त नमो नमः या देवी सर्वभूतेषु निद्रा नमस्तस्यै नमस्तस्ये नमस्तस्यै नमो नमः या देवी सर्वभूते सु क्षुधारूपेण संस्थितान् नमस्तस्यै नमस्तशे नमस्तस्य रूपेण संस्थिता नमस्तश्चे नमस्तश्चे नमस्तै नमो नमः या देवी सर्वभूते तु शक्तिरूपे ै नमस्तश्चे नमस्तश्चै नमो नमः या देवी सर्वभूते तु शान्तिरूपेण संस्थितां नमस्तस्यै नमस्तश्चे नमस्तश्चै नमो नमस्तस्यै नमो नमः या देवे सर्वभूते सु लज्जारूपेण संस्थितां नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देव शान्तिरूपेण संस्थितां नमस्तश्चै नमस्तै नमस्तश्चै नमो नमः या देवी सर्वभूतेषु श्रद्धारूपेण संस्थितां नमस्तस्य संस्थिता नमस्तश्चै नमस्तस्यै नमस्तश्चै नमो नमः या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता नमस् स्मृतिरूपेण संस्थितां नमस्तश्चै नमस्तै नमस्तस्यै नमो नमः या देवी सर्वभूते सु स्मृतिरूपेण संस् दयारेण संस्थिता नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः या देवी सर्वभूतेषु तुष्टरूपेण संस्थिता नमस्ते देवी सर्वभूतेषु मातृरूपेण संस्थिता नमस्तस्यै नमस्तश्चै नमस्तस्यै नमो नमः या देवी सर्व नमः इन्द्रियाणामधेष्ठत्रे भूतानां चाखिलेषु या भूतेषु सततं तस्यै व्याप्तिदेव्यै नमो नमः चित्रो Namaste. Say, namo, namo, namaste. Namaste. Namaste. Namaste.